अथ तृतीयाष्टः चतुर्थप्रश्नप्रारम्भः ओ ब्रह्मणे ब्राह्मणमालभते क्षत्रायराजन्यम् मरुद्भ्यो वैश्यम् तपसे शूद्रम् तमसे तस्करं। नारकाय वीरहनम् आत्मने एक्लीबम् आक्रजायाम् कामाय पुग्गुश्चलूम् अतिकृष्टाय मागधम् गीताय सूतम् नृताय शैलोषम् धर्माय सभाचरम् धर्माय रेभम् नरिष्ठायै भीमलम् हसायकारिम् प्रमुदे कुमारे पुत्रम् मेधायै धैर्याय तत्क्षानम् श्रमाय कौदालम् मायालीकारमारम् शरव्यायाशुकारं शुभेवपम् शरव्यायादिषुकारम् एत्यै धन्वकारम् कर्मणे ज्याकारम् दिष्टादरज्जुसर्गम् देहाजोपपतिम् निरवित्यैपरिवित्तम् आर्धे परिविधानम् अरा आर्धे दिधिषोपतिम् पवित्राजभिषजम् प्रज्ञानाय नक्षत्रदर्शम् निष्कृत्यैपेशस्कारी बलाजोपदाम् वरणायादूरुधम् नदीभ्यः पौञ्जिष्टम् पुरुषव्याघ्राय दुर्मदम् प्रयुग्भ्य उन्मत्तम् गन्धर्वाप्सराभ्यो व्रात्यम् सर्पदेव जनेभ्यो प्रतिपदम् अरेभ्यः कितवम् वीर्यताया अटितवम् शाचेभ्यो बिजकारम् यातुधानेभ्यः कण्टककारम् उत्सादेभ्यः कुब्जम् प्रमुदेवामनम् र्भ्यस्रामम् स्वप्नायान्धम् अधर्माय बधिरम् सञ्ज्ञानाय स्मरकारी रामोद्यायोपसदम् आशिक्षायै उपशिक्षाया अभिप्रश्निनम् मर्यादायै प्रश्नविवादम् नृत्येस्तेन हृदयम् निविद्यैक्षत्तारम् औपद्रष्टाय सङ्ग्रहीतारम् स्मलायानुचरम् भोम्नेपरिष्कन्दम् प्रियाय प्रियवादिनम् अरिष्ट्या अश्वसादम् मेधाय वासः पल्पूलीम् प्रणामाय रजयित्रीम् भायै आगस्य पृष्ठायाभिषेक्तारम् प्रध्नस्य विष्टपाय पात्रनिर्णेघम् देवलोकाय पेषितारम् मनुष्यलोकाय प्रकरितारम् सर्वेभ्यो लोकेभ्य उपसेक्तारम् अवर्त्यैवधायोपमन्थितारम् सुवर्गाय लोकाय भागरुघम् परिशिष्ठाय नाकाय परिवेष्टारम् अर्मेभ्यो हस्तिपम् जवायाश्वपम् पुष्ट्ये गोपालम् तेजसे जपालम् देव्यायाविपालम् विराजे कीलाशम् कीलाय सुराकारम् भद्राय गृहपम् श्रेजसे वित्तधम् अध्यक्षायानुक्षत्तारम् न्यवेगस्तापम् क्रोधाय निसरम् शोकायाभिसरम् उत्कूलोलाभ्यान्तस्थिलम् योगाय दोक्तारम् क्षेमाय विमोक्तारम् वपुक्षेमादस्कृतम् शीलाजाञ्जलीकारम् निर्वृत्तिकोशकारीम् यमायासोम् यम्यै यमसोम् अथर्वभ्योऽवतोगाम् संवत्सराजपर्यीम् परिवत्सराजापिजाताम् यदा वत्सराजापस्तद्वरीम् यद्वत्सराजाते त्वरीम् वत्सराजविजर्जराम् सर्वान्सराजपलिक्रीम् वनाय वनपम् अन्यतोरण्यायदावपम् सरोभ्योऽधैवरम् ेषन्ताभ्यो दाशम् उपस्थावरीभ्यो बैन्दम् नड्वलाभ्यः शौष्कलम् पार्यायकैवर्तम् अपार्यायमार्गारम् तीर्थेभ्य आन्दम् विषमेभ्यो मैनालम् पर्वते किम् पूरुषम् प्रतिश्रुक्तायारुतुलम् घोषाय भषम् अन्ताय बहुवादिनम् अनन्ताय मूकम् महसेवेणावादम् क्रोशाय तूर्णवध्मम् बीभत्सायै पौल्कसम् भोक्त्यैजागरणम् अभोक्ते स्वपनम् तुलायै वाणिजम् वर्णाय हिरण्यकारम् विश्वेभ्यो देवेभ्यः सिद्धमलम् पश्चाद्दोषाय ग्रामम् वृत्यैजनवादिनम् ग्यर्ध्या अपगल्धम् सगुंशराय प्रच्छिदम् रसाय पुग्विश्चलोमा लभते वीणाभारङ्गणकङ्गीताय यादशेषाहुल्याम् नर्माय भद्रवतीम् तोणवध्वम् रामण्यम् पाणिसङ्घातम् नृत्ताय अक्षराजायकितवं कृतायसभाविनं तलवम् आदिनवदर्शम् पराय बहिःसदम् कलये सभास्थाणुम् दुष्कृताय चरकाचार्यम् अध्वने ब्रह्मचारिणम् पिशाचेभ्यः शैलगम् पिपासायै गोव्यच्छम् निर्वृत्त्यै गोघातम् क्षुधेको विकर्तम् क्षतृष्णाभ्यान्तम् योगाम् विकृन्तम् आगुम् सम् भिक्षमाण ौम्यै पीठसर्पिणमालभते अर्णये गुंसलम् वायवे चाण्डालम् अन्तरिक्षायवगुंसनर्तिनम् विवेखलतिम् सूर्याय हर्यक्षम् चन्द्रमसे निर्मिरम् नक्षत्रेभ्यः किलासम् अह्ने शुक्लम् पिङ्गलम् रात्रिजै कृष्णम् पिङ्गाक्षम् वाचे पुरुषमालभते प्राणमपानम् जानमुदानगुंसमानम् तारिर्वायवे सौर्याय चक्षुरालभते मनश्चन्द्रमसे लिभ्यः श्रोत्रम् प्रजापतये पुरुषम् अथैतानरूपेभ्य आलभते अति ह्रस्वमति दीर्घम् अतिकृशमत्यगुंसलम् अतिशुक्लमति कृष्णम् अतिश्लक्ष्णमति लोमषम् अति अति अतिकिरीटमतिदन्तुरम् मेर अतिमिर्मिरमतिमेवषम् आशाजे जामिम् प्रतीक्षायै कुमारी इति तृतीयाष्टः चतुर्थप्रश्नः समाप्तः